<ग्यों> हरि ओं श्रीसीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे सप्तषष्ठितमः सर्गः कुम्भकर्णकर्तृकम् युद्धम् श्रीरामेण तस्य वधश्च ते निवृत्ता महाकाय श्रुत्वा गदवच सदा बुद्धिमासाय सर्वे सङ्ग्रामकाङ्क्षिणः समुदीरितवीर्यासे समारोपितविक्रमः पर्यवस्था पिता वाक्यै अङ्गरेण बलीयसा प्रयाता च गता हर्षम् मरणे कृतनिश्चयः चक्रुषुतुमलम् युद्धम् वानरा त्यक्तजीवितः अथ वृक्षान् महाकाय सानूनि सुमहान्ति च वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् कुम्भकर्णसुसङ्क्रुद्धौ गदाम् उद्यम्य वीर्यवान् दर्शयन् स महाकाय समन्ताव्यक्षिपद्रिपून् शतानि सप्तचाष्टौ च सहस्राणि च वानरः प्रकीर्णाशीरते भूमौ कुम्भकर्णेन ताडितः षोडशाष्टो च दे दश च विंशत्त्रिंशत् च परिक्षिप्य च बाहुभ्यम् खादन् च परिधावति भक्षयन् दृश संक्रुद्धो गरुडे पन्नगान्निव कृच्छ्रेण च समाश्वस्तः सङ्गम्य च ततस्ततः वृक्षाद्रिहस्ताहरय तस्थु सङ्ग्राममूर्धनि तथा पर्वतमुत्पाट्य द्विविध प्लवगर्षभ दुद्रावगिरिशृङ्गारभम् विलम्ब इव तो यदः तं समुत्पाट्य चिक्षेपय कुम्भकर्णाय वानरः तम प्राप्य महकाय तस्पत ममश्वान् गा रहा चापी, चापी गजोत्तम तीन चाक्षासी एवं चा गिरे शि तैर वेगा हताश हत सारथि रक्षसा रुझीनम बभूवा यो धनम रथीनो वानरेन्द्राणां शरैकालान्त कोपमहि शिरांसी नर्दतां जर्रु सहसा भीमनिस्वनः वानरा च महात्मानः समुत्पाट्य महाद्रमान् रथानश्वान् गजानुष्ठान् राक्षसान् अभ्यसूदयन् अनोमान् शैलश्रुङ्गाणि शिलाश्च विविधान् द्रुमान् वर्ष कुम्भकर्णस्य शिरश्चरमास्थितः तानि पर्वतशृङ्गाणि शूलेन स बिभेदः बभञ्ज वृक्ष च कुम्भकर्णो महाबलः ततो हरीणाम् तदनीकमुग्रम् दुद्रावशूलम् निशितम् तत्रो स तस्यापततः परस्ताम् महीधराग्रन् हनुमान्त्रगृह्य सकुम्भकर्णम् कुपितो जघाणा वेगेन शैलोत्तमभीमकायम् सञ्चुक्षुभेतेन तदाभिभूतो मेधार्द्रगात्रो रुधिरावसिक्ते स शूलमाविध्यतडिप्रकाशम् गिरिं यथा प्रज्वलिताग्निशृङ्गम् बाह्वन्तरे मारुतिवाजघन गुहोचलम् कौञ्चम् विभोग्नशक्या सशूल निर्भिन्न महाभूयान्तर त्वविह्वले शोणितमुद्वमन् मुखात् ननाद युगान्तमेघस्तनितस्तपोस्तनितस्व नोपमम् ततो विनेदु सहसा प्रदृष्टा रक्षवणा प्रदुद्रुवु संयति कुम्भकर्णात् तथा तु नीरोभवं बलवान् प्रवित् प्रचिक्षेप शैलाग्रम् कुम्भकर्णाय धीमते तदा पतन्तम् सम्प्रेक्ष्य मुष्टिनाभिजघनः मुष्टिप्रहाराभिहतम् तत् शैलाग्रम् व्यशीर्यत सवित्पुलिङ्गम् च्वालम् निपपात महामहीतले वृषभ शरभो नीलो गवाक्षो गन्धमादनः पञ्चे वा नरशार्दूरः कुम्भकर्णमुपाद्रवन् शैलै वृक्षैस्तैतलै पादे मुष्टिभिश्च महाबलः कुम्भकर्णम् महाकायम् निजघ्नो सर्वतो युधी स्पर्शानीव प्रहारान्ताम् वेदयानो न वृषभं तु महवेगम् बाहुभ्यां परिशस्वजे कुम्भकर्ण भुजाभ्यां तु पीडितो वानरषभ निपपातर्षभो भीमः प्रमुख गत शोणितः मुष्टिना शरभम् नीलमहवे अजघान गवाक्षन्तु लेनेन्द्र रिपुस्तदा पादेनाभ्य हन क्रुद्ध तरसा गन्धमाननम् दत्त प्रारवेसिता मुहुषोणितोक्षितः निपेतुस्ते तुमे दिन्यां निकृता इव किञ्चुकः तेषु वानरमुख्येषु पातितेषु महात्मसु वा नराणां कुम्भकर्णं कुम्भकर्णम् प्रदुद्रुः तं शैलम् इव शैलाभ सर्वे तु प्लवगर्षभः समारुह्य समुत्पत्य ददंशुश्च महाबलः तं नखै दर्शने चापि मुष्टिभिः बाहुभिस्तदा कुम्भकर्णम् महरबाहुम् निजघ्नौ प्लवगर्षभः स वानर स्रेस्तु विचितः पर्वतोपमः रज राक्षस व्याघ्रो गिरिरात्मा रुहैव बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबल भक्षयामासङ्क्रुद्धो गरुडे पन्नगानिव प्रक्षिप्ता कुम्भकर्णेन वक्त्रे पाताल सन्निभे नासापुटाभ्यां सञ्जग्मु कर्णाभ्याम् चैव वामरः भक्षयन् भृश संक्रुद्धो हरिन् पर्वत सन्निभे बभञ्जे वानरान् सर्वान् सङ्क्रुद्धो राक्षसोत्तमः मासे शोणित सङ्क्लेरां कुर्वन् भूमिं स राक्षस चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः वज्रहस्तो यथा चक्र शक्र पाशहस्तवान्तकः शूलहस्तो बभो युद्धे कुम्भकर्णो महाबलह यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः तथा वा सैन्यानी कुम्भकर्णो ददाह सः यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः तथा वानरसैन्यानि कुम्भकर्णो ददाहसः तदर्थे वध्यमानास्तु फटयुथा प्लवङ्गमः वानराभयसंवेदना विने दुर्विकृतैश्वरे अनेकशो वध्यमाना कुम्भकर्णेन वानरः राघवम् चरणम् जग्मो व्यथिताभिन्न चेतसः प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तात्मजात्मजः अभ्यधावत वेगेन कुम्भकर्णं महाहवे चैलशृङ्गम् महद् गृह्य विनदन् स मुहुर्मुहुः त्रास्यन् कुम्भकर्ण पदानुगाम चिक्षेप शैलशिखरम् कुम्भकर्णस्य मूर्धनि स्वतेनाभिहतो मूर्ध्नि शैलेनेन्द्र रिपुस्तदा कुम्भकर्ण प्रज्वाल क्रोधेन महता तदा शोभ्य धावुत वेगेन वालिपुत्र ममर्षणः कुम्भकर्णो महानाद श्वासयन् सर्ववानरन् शूलं ससज्य वै रोषात् अङ्गुले तु महाबलः तदा पतन्तं बलवान् युद्धमार्ग विशारदः लाघवान् मोक्षयामास बलवान् वानर शभः उत्पत्तिकैनम् तरसा सलेनो रस्य ताडयत् सेनाभिहत कोपात् चलोपमः स्वलब्धसंन्योऽतिबो मुष्टिं संगृह्य राक्षसः अपहस्तेन चिक्षेप विसन्यास पपातः तस्मिन् प्लवकशादूरे विसन्ने पतिते भुवि तच्चूलं समुपादाय सुग्रीवम् अभिदुद्रुवे तम् आपतन्तं सम्प्रेक्ष्य कुम्भकर्णम् महाबलम् उत्पपात तदा वीर सुग्रीवो वानराधिपः स्वपर्वताग्रमुत्क्षिप्य समाधि समाविध्य महाकपिः अभिरुद्राववेगेन कुम्भकर्णम् महाबलम् तम् आपतन्तम् सम्प्रेक्ष्य कुम्भकर्ण प्लवङ्गमम् तस्थो विवृत्त सर्वाङ्गो वानरेन्द्रं सम्मुखः कपि शोणित दिग्धाङ्गम् भक्षयन्तर्णम् स्थितम् दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् पातिता च त्वया वीरा कृतं कर्म सुदुष्करम् भक्षितानि च सैन्यानि प्राप्तं ते परमम् यजः त्यज तद् प्राकृतैः किं करिष्यसि सहस्रैकं निपातं मे पर्वतस्यास्य राक्षसः तद्वाक्यं हरिराजस्य सत्व सत्त्वधैर्य समन्वितं श्रुत्वा राक्षस चार्दूल कुम्भकर्णो ब्रवीद्वचः प्रजापतिस्तु पौत्रस्थं तथैव ऋक्षरजस्तुतः धृतिपौरुष सम्पन्न तस्मात् गर्जसि वानरः स कुम्भकर्ण स वचो निशम्य व्याविध्य शैलं सहसानुमोचे तैला जानोर्षि कुम्भकर्णम् शैलेन भुजान्तरे तस्य तदा विशाले ततो रक्षोगणा चापि मुदा विनेदुः स्वशैलशृङ्गाभियते स्वगोप ननादरोषाश्च विवृत्य वक्त्रम् व्याविध्यचूलम् च तडिप्रकाशम् चिक्षे पतेर्वधाय तत्कुम्भकर्णार्थ भुज प्रणुन्नम् शूलम् शितम् काञ्चनलामयष्टिम् क्षिप्रम् समुत्पत्य निगृह्य दौर्भ्यम् बभज वेगेन सुतो निलस्य कुतम्बारसहस्रस्य शूलम् कालाय सम्महत् बभञ्जानमारोप्य तदा हृष्ट प्लवङ्गमा शूलम् भग्नम् हनुमता दृष्ट्वा वानरवाहिनी दृष्टान्नाद बहुच सर्वतश्चापि दु द्रुवे बभूवाथ परितृस्तो राक्षसो विमुखोऽभवत्सिंहनादं च चते चक्रु प्रहृष्टावनगोचरः मारुतिं पूजयान् दृष्ट्वा शूलम् तथा गतम् स तत्तथा भग्नमवेक्ष्य शूलम् चकोपरक्षोऽधिपतेर्मात्मा उत्पाट्यलङ्कारमलया स शृङ्गम् जघान सुग्रीवमुपेत्य तेन सशैलशृङ्गतो विसन्य पपात भूमौ युधि वा नरेन्द्र तं पतितं विसन्यम् नेधुप्रदृष्टा युधया तुधाना स नभ्युपेताद्भुतगोर्वीर्यम् जहार सुग्रीवमभिूह्य यथा निलो मेघमिव प्रचण्ड सह मेघनिकाशरूपम् उत्पाट्य गच्छन् यदि कुम्भकर्ण रजमेरुपतिमानरूपो मेरु यथा वृच्छितघोर शृङ्ग ततः ततः समाधाय जगामवीर संस्तूयमानो युधिराक्षसेन्द्र शृण्वन्निनादम् त्रिदिवालयानाम् प्लवङ्गराजग्रह विस्मितानाम् ततः समाधाय सदा समेने हरीन्द्रमिन्द्रोपमीन्द्रवीर्य अस्मिन् हते सर्वमिदम् हतं स्यात् स राघवम् सैन्यमितिन्द्रशत्रु विद्रुताम् वाहिनीम् दृष्ट्वा वानराणाम् इतस्ततः कुम्भकर्णेन सुग्रीवम् गृहीतम् चापि वानरम् हनुमान् चिन्तयामास मतिमान् मारुतात्मजः एवम् गृहीते सुग्रीवे किं कर्तव्यम् मया भवेत् यद्धि न्यायम् मया कर्तुम् तत्करीषाम्य संशयम् भूत्वा पर्वतसङ्काशो नाशेषामि राक्षसम् मया हते महाबले मूर्तिविशीर्णदे विमोचिते वा न पार्थिवे च भवन्तु अथवा स्वयमप्येष मोक्षं प्राप्स्यति वानरः गृहीतोऽयं यदि भवेत् स्त्रीरसै सा सुरोरगै मन्येन तावदात्मानं बुध्यते वानराधिपः शैलप्रहाराभिहत् कुम्भकर्णेन संयोगे अयम् मुहूर्ता सुग्रीवो महहवे आत्मनो वा नराणां च यत्पथ्यं तत् करिष्यति मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः अप्रीति च भवेत् कष्ट कीर्तिनाशः च शाश्वतः तस्माद् मुहूर्तं कङ्किष्ये विक्रमं मोक्षितस्य तु भिन्नं च वा नरनेकम् तावदाश्वासयाम्यहम् इत्येवं चिन्तयित्वाथ हनुमान् मारुतात्मज भूय संस्तम्भ्रमानयामास वानराणां महाचमम् सकुम्भकर्णोऽथ विवेशलङ्कां स्फुरन्तमादाय महाहरिन्दम् विवानचर्याय घृगोपुरस्थै पुष्पाग्र्यवर्षैः विपूज्यमान लाजगन्धोद्वर्षैः तु शनैः शनैः राजवीथ्या सुजित त्वा संज्ञां प्राप्य महाबलै तथश्च संज्ञाम् उपलभ्य कृच्छ बलीयशस्तस्य भुजान्तरस्थ क्षमाण पुरराजमार्गम् विचिन्तयामास मूर्महात्मा एवं गृहीतेन कथम् नुनाम शक्यम् मया सम्प्रति कर्तुमद्य तथा करिष्यामि यथा हरिणाम् भविष्यतिष्टम् चैतञ्च कार्यम् ततः कराग्रहीसहसा समेत्य राजा हरीणाम् अमरेन्द्रशत्रु करैश्च कर्णो दशनैश्च नासन् ददञ्च पादैर्विददारपार्श्वौ सकुम्भकर्णो हृतकर्णनासो विदारित तेन हृदैर्नखै सुग्रीवमा विध्यपिपेश सुग्रीवमाविद्यपिपेशभूमौ स भूतले भीमबलाभिषिष्ट भी सुरारिभितै भी अभिहन्यमान च गामकं कन्दुकवजवेन पुनश्च रामेण समाजगाम कर्णनाशा वीन तु कुम्भकर्णो महाबल रराज शोणितौत्सिक्तो गिरिप्रसवणैरिव शोणितार्धो महाकायो राक्षसो भीमदर्शनः युद्धायाभिमुखो भी भूयो मनश्चक्रे निशाचरः अमर्षाय शोणितोद्गारी शुशुभे रावणानुजः नीलाञ्जन चे प्रख संसध्य इवतो गते च तस्मिन् सुरराजशत्रु क्रोधात् प्रदुद्रावरणाय भ्रूये अनायुधोऽस्मीति विचिन्त्य रुद्रो घोरं तथा मृद्गरमाससार ततस्त पूर्या सहसा महोज निष्क्रम्य तद्वा नरसैन्यमुग्र्यम् बभश्च रक्षो युधि कुम्भकर्ण प्रजायुगान्ताग्निरिव प्रवृद्धे भुभोक्षित शोणितमांस गृध्रू प्रविश्य तद्वा नरसैन्यमुग्रम् चखा रक्षान्ति हरिन्ति शाचान् वृक्षांश्च मोहा कुम्भर्ण यथैव मृत्यो हरते युहान्ते स्वभक्षया मासहमीश मोक्ष्यान् एकं दो तीन्दौन् क्रुद्धो वानरान् सह राक्षसै समादायैक हस्तेन प्रचीक्षेपरन्मुख सन्प्रस्रवन्तदा मेद शोणितं च महाबलः वध्यमानो नगेन्द्राग्रिः भक्षयामास वानरान् ते भक्ष्यमाणा हरयो रामं जग्मुदा गतिम् कुम्भकर्णो भृशं क्रुद्ध कपिन् खादन् प्रधावति शतानि सप्तचाष्टोच विंशत् त्रिंशत् तथैव च सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति वेदोऽवसाय शोणितदीग्धगात्रे कालो युगान्तस्थैव प्रवृद्धे तस्मिन् काले सुमित्राया पुत्र परबलार्दुनः चकार लक्ष्मणक्रुद्धो युद्धं तु पर पुरञ्जयः स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान् निचखामादरे चान्यान् पित च लक्ष्मणः पीजमान तदर्थं तु विशेषं तत्स राक्षसः ततै शु कोप बलवान् सुमित्रानन्दवर्धनः अथा च कवचं शुभ्रम् जाम्बूनगमयं शुभ्रम् प्रच्छादयामास चरये सन्ध्याभ्रम् इव मारुतः नीलाञ्जनचय प्रखय शरी काञ्चन भूषणे आपीड्यमाना शुशुभे मेघैः सूर्य इवांशुमान् ततस्त राक्षसो भीम सुमित्रानन्दवर्धनम् सावज्ञमेव प्रोवाच वाक्यं मेघो घनिस्वनः अन्तकस्याप्यकष्टेन युधि जेतारमाहवे युध्यता ख्याता वीरता तया प्रगृहीतायुध मृत्योरीव महामृधे ठन्नप्य घृत पूज किमु युद्ध प्रदायक ऐरावत समारूढो वृत सर्वा प्रभु प्रभो नव चक्रोपी समित पूर्व कदाचन अद्य त्वया अहं सौमित्रे बालेनापि पराक्रमैः तोषितो गन्तुमिच्छामि सामनुत्याप्यराघवन् यत्तु वीर्यबलोत्साहै तोषितोऽहम् ऋणे त्वया रामम् एवैकमिच्छामि हन्तुं यस्मिन् हते हतं रामे मया त्रीयते येने सास्यन्ति संयोगे ोधय्या स्व प्रमाथ वाक्यं तद्रक्ष स्तुति मृदे घोरतरम वाक्यम सौमित्री प्रहसन्व यस्यप्य पौर तत्सत न्यार दृष्टे पराक्रम एष दाशरथी राम तिष्ठस्य द्रीरिवाचलः इति श्रुत्वा ह्यनादृत्य लक्ष्मणम् स निशाचरः अतिक्रम्य च सौमित्रीम् कुम्भकर्णो महाबलः राममेवाभिरुद्राव कम्पयन्निव मेदिनीम् अथ दाशरथी रामो रौद्रम् अस्त्रम् प्रयोजनम् कुम्भकर्णस्य हृदये स्वसजय निशिताञ्जनान् तस्य रामेण विद्धस्य सहसाभिप्रधावतः अङ्गारमिश्र क्रुद्धस्य मुखान्निश्चे रुरर्षिर्चिषः रामाश्रविद्धो गौरम् वै नर्दन हरिन् विद्रावयन्द्रणे तस्यो रसीन मग्नाते शराबर्हीनवासतः हस्ताचारस्य परिभ्रष्टा गदाचोर्यां पपातः आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले स्वनिरायुधमात्मानं यदा मेने महाबलः पुष्टिभ्यां च चकार कदनम्ब स बाणीरतिविधाङ्गतजेन समुक्षितः रुधिरं परिशुश्राव गिरिप्रश्रवणं यथा स तीव्रेण च कोपेन रुधिरेण च मूर्छितः वानरां राक्षसान् वृक्षान् खादन्त परिधावति अथ शृङ्गं समाविध्य भीमं भीम पराक्रमः शिक्षे परामम् उद्दिश्य बलवानन्तकोपमः अप्राप्तम् अन्तराम सप्तभीतमजिह्मगै चिक्षेद गिरिशृङ्गं तम् पुनस्सन्दायकार्मुकम् तत सुरामो धर्मात्मा तस्य शृङ्गम् तदा शरी काञ्चन चिच्छेद भरताग्रजहे तन्मेरु शिखराकारं द्योतमानं विवश्रिय द्वेषते वानराणां च पतमानम् अपातयत् तस्मिन् काले स्वधर्मात्मा लक्ष्मणो रामम् अब्रवीत् कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहु नैवायं वानराम न विजानाति राक्षसान् मत्त शोणितगन्धेन स्वान्तराश्च एव खादति साध्वेन हि दुरोहन्तु सर्वतो वानरषभ यूथपाश्च यथा मुख्य तिष्ठन् तस्मिन् समन्ततः अद्यायम् दुर्मतिकारे गुरुभैरे प्रपीडितः राक्षसो भूमौ नान्यान् धन्यान् पृवङ्गमान् तस्य तद्वचनम् श्रुत्वा राजपुत्रस्य धीमतः ते समारु कुम्भकर्णम् महाबलः कुम्भकर्णः सुसंक्रुद्धे समारूढ प्लवङ्गमयि व्यधूनये तान् वेगेन च हस्तीव दुष्ट मीट राक्षसम सबत्ते वेगेन धनुतम आदरे क्रोध रक्ते क्षण धीरो निर्दहन चक्षुष राघव राक्षसं वेगात, अभिदुद्र वेगि यूथ पा हषयन सर्वान्भकर्ण बलाताय भुजंग कल्पन् दृढज्यमुग्रं तपनीय चित्रम् हरिञ्चमाकाहस्य समुत्पत् रामो निबद्धोत्तमतूर्णबाणः सवानरे गणेश तु वृतस्पर मधुर्जयै लक्ष्मणा नो च रो ृन्दमम् शोणिताय प्लुतरक्ताक्षम् कुम्भकर्णम् महाबलः सर्वान् समभिधावन्तम् यथा रुष्टम् दिशा गजम् मार्गमाणम् ह्रीं क्रुद्धम् राक्षसै परिवारितम् विन्ध्य मन्दर सङ्काशम् काञ्चनाङ्गदभूषणम् स्त्रवन्तं रुधिरं वक्ता वर्षमेघं विवोत्थितं जिह्व्य परिलिह्यन्तं सुणी शोणि वानरमेकं मृद्गन्तं वा नरमेकम् कालान्तयमोपमं तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तान् नलवर्चसं विस्फोरयामास कार्मुकं पुरुषस्य भये स तस्य कुपितो राजधर्षभ अवृष्यमाण तं घोषम् अभिरुद्रावराघवम् ततस्तु वातो धतमेघकल्पम् भुजङ्गराजो तम भोगु तमापतन्तं धरणीधराभम् वाच रामो युधि अवस्थितोऽहं प्रगृहीत चाप अवेहि मां राक्षसमंशनाशनम् रामोयं इति विचेताय रामोऽयमिति विज्ञाये जहास विकृतस्वनम् अभ्यधावत संक्रुद्धो हरिन् विद्रावयन्द्रणे धारयन्निव सर्वेषाम् कृत भीमं सोपम कुंभकर्ण महातेज राघव वाक्यम्रवीत नहम विराधो विज्ञ न कबंध खरो नाली न चरी चुंभकर्ण सामगत भीमं, सर्वं सर्व कालाये निर्जित देव दानवशे पुरा मया विकर्णनाश इति मां नावज्ञातुं तु अर्हसि स्वल्पापि हीन मे पीडा कर्णनास विनाशनाय दर्शयित्वा कुशादूलय वीर्यं गात्रेषु मेनघ तत सां भक्षयिष्यामि दृष्टे पौरुषविक्रमम् स कुम्भकर्णस्य वचो निशम्य रामस्तपुङ्खान् विसर्यबाणा सैराहतो वज्रसमप्रवेगै न चुक्षुभे न व्यथते सुधारि यै सायकै सालवरानिकृता वालिहतो वा नरपुङ्गभै ते कुम्भकर्णस्य तदा शरीरम् वज्रोपमान व्यथयां प्रचक्रु स वारि धार इव सायकान्तान् पिबन् शरीरेण महेन्द्र शत्रु जघ रामः स शरप्रवेगम् व्याविध्यतं भगरमुग्रवेगम् तदस्तु रक्षतजानुलिप्तं विसनं देव महाचमूनाम् ग्रवेगम् विद्राम् यामास चमं हरिणाम् वायव्यमादाय ततोपरासं रामप्रतिक्षेप निशाचराय समुद्रं तेन जहार बाहु सकृतबाहु तुमलं न नार स तस्य बाहुर्गिरिशृङ्गकल्पय समगरो राघववाणकृत्य पपात तस्मिन् हरिराजसैन्ये जघानतां वानरवाहिनीं च ते वानराज भग्नतावशेषाय पर्यन्तमाश्रित्य तदा विषण्णाय प्रपीडिताङ्गा ददृशु सुघोरं नरेन्द्ररक्षोधिपसन्निपातम् कुम्भकर्णो सुनिकृत बाहु महसि कृताग्रयवाचलेन्द्र उत्पाटयामासकरेण वृक्षम् ततोऽभिरुद्रावसरणेन रेन्द्रम् तं तस्य बाहुं सतालवृक्षम् समुद्यतं पन्न भोग कल्पम् ऐन्द्राश्रयुक्तेन जघन रामो जाम्भूनचित्रेन स कुम्भकर्णस्य भुजो निकृते पपात भूमो गिरिसन्निकाषे विचेष्टमानो निजघान् वृक्षान् शैलान् शिला वा न राक्षसांशे तं छिन्न बाघं रामे समर्पतन्तं सहसा न द्वावर्धचन्द्रो निशितो प्रगृह्य चिच्छेदपादो युधिराक्षसस्य तौ तस्य पादोपदिशोदिश गिरीर्गुहा चैव माणवं च लङ्कां च तेनां कपिराक्षसानां विनादयन्तो विनिपेततुश्च निकृतबाहोर्विनिकृतबाहो विदार्य वक्त्रम् बड्वा मुखाभम् सुद्राव रामम् सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे अपूरयस्तस्य मुखम् चिथाग्रे रामश्चरैर्हेमपि नद्ध पुङ्खे सम्पूर्णवक्त्रो न शशाकवक्तुम् चुकूजकृच्छेण अथादरे स ब्रह्म दण्डान्तरिष्ट महेन्द्रं निशितं सुपुङ्खम् रामेश्वरं मारुतल्य वेगम् तं वज्रजाम्बूनद चारु पुङ्खम् प्रदीप्त सूर्य राम प्रतीक्षे पनिशाचरये सहायको राघवबाहुचोदितो दिश स्वभावदशतं प्रकाशयन् विधुम वैश्वानर भीम दर्शनो जगामचक्रशनि भीम विक्रमे सम्भ पर्वतकूटसन्निभम् सुवृत्तदन्तं चरचारिकुण्डलम् चक्रत रक्षोऽधिपते शिरसदा यथैव पुत्रस्य पुरा पुरन्दर कुम्भकर्ण शिरो भाति कुण्डलालं कृतं वेत् आदित्येभ्योदिते रात्रौ मध्यस्थैव चन्द्रमः तदा रामबाणा भयतम् पपत् रक्षिरे पर्वतसन्निकाशम् दभञ्जचर्याय गृह गोपुराणि प्राकारमुच्चं तमपातयच्च तच्चातिकायम् हि भवत् प्रकाशम् रक्षस्तदा तूयनिधौ पत् गन् परान् मीनवरान् भुजङ्गमान् ममर्जभूमिं च तस्मिन् हृते ब्राह्मणदेवशत्रौ मायबले संयति चचाल चाल भूर्भूमिधराय च सर्वे हर्षाच देव ततस्तु देवर्षि महर्षि पन्नग सुराश्च भूतानि सुपर्णगूषक स्वयक्ष गन्धर्वगणा न भगता सहर्षिता रामपराक्रमेण ततस्तु ते तस्य वधे न भूरिणाय मनस्विनो नैरसराजबान्धव विदे दुरुच्चैता रघुत्तमं हरिं समीक्षैव यथा मतङ्गज सदेव लोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद्विमुक्ते तथा व्यभासे धरिसैन्यमध्ये निहत्य रामो युधि कुम्भकर्णम् प्रश्मीयूर्भवैश्च प्रबुद्ध पद्मपतिमैरिवनये अपूजयन् रागमीश भागिनम् हते रिपो भीमबलेन्द्र पद्मजम् कुम्भकर्णं सुरसैन्यमर्दनम् महत्सु युद्धे शुकदाय च नाजितम् ननन्द भर्ताग्रजूरणे महासुरं वृत्रमिवामराधिपे विचारे श्रीमद् रामायणे वर्मिके अधिका वे युद्धकाण्डे सप्त षष्टि तम सर्ग हे